हरि ओं श्री सीतारामचन्द्रभ्या नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे पञ्चचत्वारिंश सर्गः इन्द्रजीतबाणे श्रीराम लक्ष्मणयोर्विसन्यता वानराणां शोकश्च स तस्य गतिमन्विच्छन् राजपुत्र प्रतापवान् दिलेशायति बलो रामो दश वानर यूथपान् द्वौ सुषेणश्च दायादौ नीलं च प्लवगाधिपम् अङ्गदम् बालिपुत्रं च शरभं च तरस्विनम् मादिदेश परन्तपः शेषम् प्रभृष्टा हरयो आकाशं विविशु सर्वे मार्गमाणादिशोदश तेषां वेगवतां वेगम् इषुभि वेगवत्तरे अस्त्रवीत् परमात्रस्तु वारया मासरावणे तम् भीमवेगा हरि नारा चैक्षत वीक्षतः अन्धकारे न ददृशु मेघै सूर्यम् इवावृतम् सर्वदेह रावनी तू तू राम लक्ष्मणयोरेव सर्वदेहभिदशरान् भृशमावेशयामास रावणै समितिञ्जयै निरन्तरशरीरौतु तौ उभौ रामलक्ष्मणौ कुर्धे नेन्द्रजितावीरो पन्नगैः शरताङ्गतैः तयोक्षतज मार्गेण शुश्रावरुधिरम्बभु तौ भौ च प्रकाशेते पुष्पि तौ इव किञ्चुकौ ततः पर्यन्तरटाक्षौ भिन्नाञ्जनचयोपमः रावणैर्भ्रातरो वाक्यम् अन्तर्धान गतो ब्रवीत् युध्यमानाम् मल वापि न शक्तः प्रापिता विषुजालेन राघवो कङ्कपत्रिण एष रोष परीतात्मा नया मीयमसादनम् एवम् उक्त्वा सुधर्मज्ञो भ्रातरो रामलक्ष्मणो निर्बिभेद शितेर्वाणे प्रजः स ननाद विस्फाल्य विपुलम् धनुः भूयैव शरान्घोरान् विससर्ज महामृधे ततो मर्मसुमर्मज्ञो मज्जयन्निशितान् शरान् रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः बद्धो तु शरबन्धेन तौ भोरणमूर्धनि निमेषान्तरमात्रेण न शेकतुवेक्षितुम् ततो विभिन्न सर्वाङ्गौ शरशल्याचितौ कृतौ द्वयो एव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ तौ सम्प्रचलितौ वीरौ मर्मभेदे न कर्षितौ न प्रेततुर्महे श्वासौ जगत्याम् जगति पति वीरशयने वीरो। शयानो हृदि रोक्षितौ शर्वेष्टीतसर्वाङ्गौ आटोपरमपीडितौ न हि अविद्धम् तयोर्गात्रे बहुवाङ्गुरमन्तरम् न निर्विण्णम् न चाध्वस्तम् आकाराग्राद जिह्मगै तत् क्रूरेण निहतौ रक्षसाय कामरूपिण असृक्सु स्रुवतुीव्रम् जलं प्रसृवणा पपाप प्रथमं रामो विद्धो मर्मसु मार्गणैः क्रोधादिन्द्रजितायेन पुरा शक्रो विनिर्जितः रुक्मपुङ्खैः प्रसन्नाग्रैः रजोगतिभिराशुगै नाराचैरस नाराचै वल्लैरञ्जलिकैरपि दिव्याधवत्सदन्तैश्च सिंहदंष्टैक्षुरैस्ततः स वीरशयने शिष्ये अवैद्याम् विद्यकार्मकम् भिन्नमुष्टिपरिणाम् त्रिनतम् रुक्म भूषितम् बाणपातान्तरे रामं पतितं पुरुष स तत्र लक्ष्मणो दृष्ट्वा निराशो जीविते भवेत् रामं कमलपत्राक्षं शरण्यं ऋणतोषिणम् शुशोच भ्रातरम् दृष्ट्वा पतितं धरणीतले हरय चापितं तं दृष्ट्वा सन्तापम् परमं गतः शोकातः चक्रशुर्घोरम् अश्रुपूरीतलोचनः बद्धौ तु तौ वीरशयेषतस्तु समागता वायुसुत प्रमुख विशाद माता परमं च जग्मुत्याश्री श्रीमद् रामायणे वाल्मीकि अधिकाव्ययुद्धकाण्डे पञ्चचत्वारिंशत् सर्ग श्रीसीतारामचन्द्रार्वणमस्तु